वानप्रस्थजनस्यापि दर्शनम् कुलवासिनां न ना किं पुनर्ग्रामवासिनाम् एवमारण्यशास्त्राणाम् उग्रमुग्रतरम् विधिम् काङ्क्षमाणोऽहमास्थास्ये वैशंपायन समापनात् वैशम्पायन उवाच इत्येवमुक्त्वा भार्येते राजा कौरवनन्दनः ततश्चूडामणिम् निष्कम् अङ्गदे च वासांसि च महार्हाणि श्रीनामाभरणानि च प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनरभाषता गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो अर्थं कामं सुखं चैव रतिं च परमात्मिकां प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरु नन्दनः प्रतस्तस्यानुयातारः ते चैव परिचारकाः श्रुत्वा भरतसिंहस्य विविधाः करुणागिरा भीममार्तस्वरम् कृत्वा हाहेति परिचुक्रशुः उष्णमश्रुविमुञ्चन्तः तम् विहाय महीपतिम् ययुर्नागपुरम् तूर्णम् सर्वमादाय तद्धनम् ते गत्वा नगरम् राज्ञो यथा वृत्तम् महात्मनः कथयाञ्चक्रिरे राज्ञः तद्धनम् विविधम् ददुः श्रुत्वा तेभ्यस्ततः सर्वम् यथा महावने धृतराष्ट्रो नर श्रेष्ठः न शय्यासनभोगेषु रतिं विन्दति तर्हि चेत् भ्रातृशोकसमाविष्टः तमेवार्थं विचिन्तयन् राजपुत्रस्तु गौरव्या पाण्डुर्मूलफलाशनः जगामसः ततो नागशतं सचैत्ररथमसाद्य कालकूटमतीत्यच हिमवन्तमतिक्रम्य प्रययो रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः उवास स महाराज समेषु विषमेषु च इन्द्रद्युम्न सरः प्राप्य हंसकूटमतीत्यच शतशृङ्गे महाराज तापसः समतप्यत इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि पाण्डुचरिते अष्टादशाधिकशततमोऽध्यायः